श्रीमद्भागवतमहापुराणं दशमस्कन्धं पञ्चदशमध्यायः फलानां पततां शब्दं निशम्या सुररासभः अभ्यधावत् चितितलं सनगं परिकल्पयन् समेत्य तरसा प्रत्यग्भ्यां पद्भ्यां बलं बले न हत्यो रसिका शब्दं मुञ्चन् पुनरासाद्यसन्द उपक्रोष्टा पराक्षितः चरणावपरौ राजन् बलाय प्राक्षिपदृशां स तं गृहीत्वा प्रवदुर्भां मयित्वैकपाणिना चिक्षेप तृणराजाग्रे ब्राह्मणत्यक्तजीवितं तेनाहतो महातालो वेपमानो बिहश्चिरा पार्श्वस्थं कम्पयन् भग्न स चान्यं सोऽपि चापरं बलस्य लीलियो सृष्टखरदेहताहताः तालाश्च कम्पिरे सर्वे महाभातेरिता इव नेतच्चित्रं भगवती हिनन्ते जगदीश्वरे ओत प्रोतमिदं यस्मिन् तन्तुस्वङ्गयथापट ततः कृष्णं च रामं च ज्ञातयोधेऽनुकस्य ये क्रोष्टारोभ्य ध्रुवन् सर्वे संरब्धाहुत बान्धवाः तां स्तानापततः कृष्णो रामश्च नृपलीलया गृहीतपश्चाचरणान् प्राहिणो तृणराजशु फलप्रकरसङ्कीर्णं दैत्यदेहैर्गताशुभि रजाज भूषतालाग्रहे घनैरिव लभस्थलम् तयोस्तत्सुमकर्मनुशाम्यविधादयः मुमुचो पुष्पवरशाली चक्रुर्वाद्यान्तुष्टभुः अथ तालफलान्यादन्मनुष्यागतसाधृताः तृणं च पशुवश्चेरुर्हतधेनोकानले कृष्णकमलपत्राक्ष पुण्यश्रवणकीर्तनः सूयमाणोऽनुगैर्गोपै साग्रजो व्रजमा व्रजत् तं गोरजश्चोरितं कुन्तलबद्धवर्ह वन्यप्रसूनरुचिरे क्षणचारुहासं वेणुं कुणन्तमनुगैरनुगीतकीर्तिं गोप्यो जीक्षन्तदृशोऽभ्यगमत्समेता भित्त्वा मुकुन्दमुखसारगं मक्षिभृङ्गैस्तापं जहुर्विरहजं तस्य कृतिं समधिगम्य विवेशगोष्ठम् सबीडहासविनयम् पदपाङ्गमोक्षम् तयोर्यसोदारोहिण्यौ पुत्रयो पुत्रवश्चरे यथा कामम् यथा कालम् विधत्ताम् परमाशिष गदाध्वानसमौ तत्र मज्जनोन्मर्जनादिभिः निबिम्बसि दिव्यस्रगन्धमण्डितौ जनन्योपहितम् प्राश्यं स्वाद्वन्नमुपलालितौ संयस्यम्बरसय्यायां सुखं शुश्रूपतुर्व्रजे सुखं स भगवान् कृष्णो वृन्दावन चर क्वचे जयो राममृते राजन् कालिन्दीं सखिभिर्वितः अथ कावस्य गोपाश्च निदाघात प्रपीडिताः दुष्टं जलं पपुः तस्याति सर्ता विसदूषितम् विषाम्भस्तदूपस्पृस्य दैवोपहत चेतथा निपेतुर्विसव सर्वे लतान् ते कुरु द्वः वीक्षितान् तथा भूतान् कृष्णो योगेश्वरेश्वर इक्षया मृतवर्षिण्या ते सम्प्रति स्मृतिय स्मृतय समुत्थाय जलान्तिकान् आसं सुविस्मृता सर्वे वीक्षमाणा परस्परम् अन्वा अन्वासतन् तद्राजन् गोविन्दानुगृहेक्षितं पीत्वा वि सम्परे तस्य पुनरुत्थानमात्मनः इति श्रीमद्भागवते महापुराणे आरहिंसां शयतायां दसंस्कन्धे पर्वार्धे धेनुकवधोन्नाम पञ्चदशोऽध्यायः